मार्कण्डेय पुराणम् अध्यायं हण्ड्रेड् अण्ड् नैन्टीन् अवीक्षिचरित्रवर्णनं मार्कण्डेय उवाच वीर्यचन्द्रसुधा सुभ्रोर्वीरामशुभव्रता स्वयंवरे सा जगृहे महाराजं करन्धमम् तस्यां पुत्रं स राजेन्द्रो जनयामासवीर्यवान् अवीक्षितमिधिख्यादिमुपेदं जगदीतले जादे तस्मिन् सुते राजा सदैवज्ञानपृच्छत कच्चित् प्रशस्तनक्षत्रे शस्तलग्ने सुतो मम कच्चिच्चालोकितं जन्म मम पुत्रस्य शोभनैः ग्रहैकच्छिन्नदुष्टानां ग्रहाणां दृक्पथं गतं युत्युक्तास्तेन दैवज्ञास्तमूचुर्नृपतिं ततः शस्ते मुहूर्ते नक्षत्रे लग्ने चैव समुत्पन्नो महावीर्यो महाभागो महाबलः भविष्यदि महाराज महाराजस्तवात्मजः अवैक्षते मम देवानां गुरुशुक्रश्च सप्तमः सोमश्चतुर्थस्तनयं तवैनं समवैक्षत उपस्थित सोमपुत्र्यवैक्षत नैक्षते मंसविद न भौमो न शनैश्चर तव पुत्र महाराज तनयस्तवसंपत्तिसमेदो भविष्य मार्कण्डेय उवाच यदि दैवज्ञवचनं निशम्य वसुधाधिपः हर्षपूर्णमनाः प्राह निजस्ता न गतस्तदा अवैक्षते बुधः नावैक्षतैनमादित्यो नार्क अवैक्षतेदि यत् प्रोक्तं भवद्भिर्बहुशो वचक अवीक्षिते दि तेनास्य ख्यातं नाम भविष्यति मार्कण्डेय उवाच अवीक्षितसुतस्तस्य वेदवेदाङ्गपारगः अस्त्रग्राममशेषं स कण्वपुत्रा दधा स्वरूपेणादिभिषजौ देवानां पार्थिवात्मजः बुद्ध्या वाचस्पतिं कान्त्या शशाङ्कं त्यजसारविम् धैर्येणाब्धिन्तयोर्वीञ्च सहिष्णुत्वेन वीर्यवान् शौर्येण नमस्तस्य कश्चिदासीन्महात्मनः स्वयंवरे तं जगृहे हेमधर्मात्मजा वरा सुदेवतनया गौरी सुभद्रा बलिनः सुधा लीलावती वीरसुदा वीरभद्रसुदा निभा भीमात्मजा मान्यवदी दम्भपुत्री कुमुद्वती याश्चैनं नाभिनन्दनिस्वयंवरकृतक्षणाः ताश्चापि सबलाद्वीरो जग्राह नृपते सुदः निराकृत्य नृपान् सर्वां तं पितृकुलानि च स्वयं हि वीर्यमाश्रित्य बलवान्न बलोद्धतः एकतादु विशालस्य विशालाधिपतेः सुतां वैशालिनीं स सुदधिं स्वयंवरकृतक्षणाम् परिभूयाखिलान् भूपान् स्वेच्छया न पृतस्तया बला जग्राकविप्रर्षे बलगर्वितः ततस्ते भूभृतः सर्वे बहुशस्तेन मानिना निराकृतास्तुनिर्विण्णाः प्रोजुरन्योन्यमाकुलाः क्षमदां वञ्चनामेदामेकस्माद्बलशालिनां बहूनामेकवर्णानां जन्मधिग्वो महीभृतां क्षत्रियो यः क्षताणं वध्यमानस्य दुर्मदैः करोति तस्य तन्नाम वृथैवान्ये हि बिभ्रति आत्मनोऽपि क्षतत्राणं दुष्टादस्मादकुर्वतां भवदां क्षत्रियकुले जादानां कीदृशी मतिः उच्चार्यते स्तुतिर्यावस्सूदमागतबन्दिभिः सा सत्यामावृथा वीरा भवत्वरि विनाशनात् शरदांसा वैशा भूपाश्चारैर्दिगन्धरे पौरुषाश्रयिण सर्वे विशिष्टकुलसंभवाः बिभेदि को न मरणात् को युद्धेन विनामरः विचिन्त्यै तन्नहातव्यं पौरुषं शस्त्रवृत्तिभिः ये तन्निशम्यते भूपा विस्पष्टामर्षपूरिताः ऊजुः परस्परं सर्वे समुत्थस्तुश्च सायुधाः के जिद्रधानारुरुः के अन्ये मर्षपराधीनास्तमुपेदाः श्रीमाकंडेयपुराणे वीक्षिचरिद नामकोन ना विंशतिकम्याय